माणिक्यवीणा उपलालयन्ती मदालसां मण्डुलवाग्विलासा माघेन्द्रनीलद्युतिकोमलाङ्गी मातङ्गकन्यां मनसा चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणि पुण्ड्रेक्षुपाशाङ्कुश पुष्पबाणहस्ते नमस्ते जगदेकमातः मातामरकश्याम मातङ्गीमदशालिनी कटाक्षयतु कल्याणी कदम्बवनवासिनी जय मातुङ्गतनये जय सङ्गीतरसिके जय लीलाशुक प्रिये जय जननी सुधा समुद्रान्त हृद्यन् मणिद्वीप संरूढ बिल्वाटवी मद्यकल्पद्रुमा कल्पकारम्बकान्तार वासप्रिये कृतिवासप्रिये सर्वलोकप्रिये साधरारब्ध सङ्गीतसम्भावना भ्रमालोल नी वस्त्रगा बद्ध चूली सनाथत्रिके साधुवत्पुत्रिके शेखरिभूत शीतां सुरेखा मयूखावलिबद्ध सुस्मिग्ध नीलालकश्रेणी शृङ्गार न्देह त्रिलोचने वाक्सुधा से चे चारु गो रोचना लला माभिरामे सुरामे रमेलिका मुक्तिक श्रेणिका चन्द्रिका मण्डलोद्भासि लावण्य गण्डस्थलन्यस्त कस्तूरिकापत्र रेखा समुद्भूत सौरभ्य सम्भ्रान्त भृङ्गागणा गीतशासी भवन्मत्रतन्त्रीश्वरे सुस्वरे बास्व वल्लगी वादन प्रक्रियालोल तालीदला बद्ध ताटङ्क भूषा विशेषान्विते सिद्ध सम्मानिते चक्षुरान्दोलन श्री समक्षिप्त कर्मैकलि लोत्फले पूरिताशेष लोकाभिवाञ्च फले श्रीफले स्वेदबिन्दु लसत्फल लावण्य निष्यन्द सन्दोह सन्देह कृप मन्त्रात्मिके सर्वविश्वात्मिके कालिके मुग्धमन्दस्मिदोदार वक्त्रपुरपूगताम्बूर कर्पूर कण्ठोकरे ज्ञानमुद्रा करे पद्मभासवत्करे श्रीकरे कुन्द पुष्पद्युति स्निग्धदन्तावली निर्मल लोल कल्लोल चारुवीणाधरे पक्वबिम्बाधरे भवत् कम्बुबिम्बोगवृत्कन्धरे सत्कला मन्दिरे मन्धरे दिव्यरत्नप्रभा बन्धुरच्छन्नहारादिभूषा समुद्योतमानानवद्यां सुशोभे शुभे रत्नकेयूर रश्मिच्छा पल्लव प्रोल्लसद्दुर्लताराजिते योगिभिर्पूजिते विश्वदिङ्मण्डलव्यापि माणि ते रस्फुरति कङ्कणालङ्कृते विभ्रमालङ्कृते साधुभिर् सत्कृते वासारम्भवेला समृजृम्भमाणारविन्द प्रतिद्वन्द्वि णिद्वये सन्तदोर्जद्वये अद्वये दिव्यरतोमिका दीधिति स्तोमसन्ध्यायमानाङ्गुलि पल्लवोद्यन्नखेन्दुप्रभामण्डले सन्नुदाखण्डले चिप्रभामण्डले प्रोलसत्कुण्डले काराज निकाशकारावलिस्मेर चारुस्तनाभोगारा न मन्मध्यवल्ली वलिच्येदविजि सौल्लासुन्दर्शिताकार सौन्दर्यरत्नाकरे वल्लकीभृत्करे किङ्करश्रीकरे कुम्भोपमोत्तुङ्गक्षो जरावनं रे त्रिलोकवनं रे लसत् वृत्त गम्भीरनाभि सरस्थिरशैवाल शङ्काकरश्यामरो मावलीभूषणे मञ्जुसम्भाजने चारुषिञ्जत्कटीसूत्र निर्भर्षिता ीडम्बरे दिव्यरत्नाम्बरे पद्मरागोल्लसन्मेखला भास्वरश्रूणि शोभाजितस्वर्णभूवृत्तले चन्द्रिकाशीतले विगसितनव किं सुम्र दिव्यां सु गच्छन् चारुशोभापराभूत सिन्धू रशोणायमानेन्द्र मातङ्गहस्तागे श्यामले कोमलस्निग्ध नीलोत्पलोद्भासितानङ्गीरशङ्काकरोदारजङ्घालते चारुलीलागते नम्रदिक्पाल सीमन्ति कुन्दलस्निग्ध नीलप्रभापुञ्ज साजातदुर्वाङ्कुराशङ्गसंयोगरिङ्घन्न केन्दुज्ज्वले प्रोज्ज्वले निर्मये रह्वदेवेश लक्ष्मीश भूतेश दैत्येश यक्षेश वागेश हीनाशतोश वायु अग्नि कोटीरमाणिक्य सङ्गृष्ट बालातपोर्धाम ता लाक्षारसारुण्य तारुण्य लक्ष्मी लक्ष्मीगृहीताङ्ग्रिपद्मे सुपद्मे उमे चिरनवरत्नपीठस्थिते सुस्थिते रत्नसिंहासने रत्नपद्मासने शङ्खपद्मध्वजोपाश्रिते तत्र विघ्नेशदूवटुक्षेत्रपालैर्विते मत्तमातङ्गकन्या समूहान्विते मञ्जुलाभेन कार्यङ्गना मानिते भैरवैरष्टभिर्वेष्टिते देवि वावादिभिर्संश्रिते शक्तिभिर्सेविते धातृलक्ष्म्यादि शक्ति अष्टकैर्संयुते मतृकाम्डलमंडिते भैरवी संक्ष गर्व सिद्धांगनामंडलैरर्चि पंचबाणा पंचबाणेर संभाविते। भाजा वसंतेन चानंद भक्तिभाजा परम श्रेयसे कलसे योगिना मानसेसे सा मोदसा से गीत विद्या विनोदा कृष्ण भक्ति संपूज्यसे भक्तिम्चेत वेदशास्तुयसे विश्वहृद्येन वाद्येन विद्याधरै गीयसे श्रवणहरणदक्षिणक्वाणया वीणया किन्नरैर्गीयसे यक्षगं दर्वसिद्धाङ्गनामण्डलैरर्च्यसे सर्वसौभाग्य वां चावधिभिर्वधूभिः सुराणां समाराध्यसे सर्वविद्याविशेषात्मकं चाटुगाधा समुक्षाटनं केदमूलोलसत्वरुणराजित्रयम् कोमलं श्यामलोदारपक्षद्वयं तुण्डसोभादिदूरीभवीं सुखम् सुकं लालयन्ती परिक्रीडसे पाणिपद्मद्वयेण अक्षमालामपि पाटिकी ज्ञानसारात्मकं पुस्तकं चाङ्कुशम् पाशमा बिभ्रति येन सञ्चिन्त्यसे तस्य पक्त्रान्तराद् गद्यपद्यात्मिका भारतीनिस्सरेत् येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पुरुषाः येन वा भज्जु साधकुम्भद्युजिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते किं न सिद्धेर्वपुः श्यामनम् कोमनम् चन्द्रचूडान्वितं तावकम् जायतः तस्य लीलासरोवारिजीस्य केरीबलं नन्दनं तस्य भद्रासनं भूतनं तस्य गीर्देवता किङ्करी तस्य च वाक्याकरी श्रीस्वयम् तीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्वशक्त्यात्मिके सर्वविद्यात्मिके सर्वयोगात्मिके सर्वनादात्मिके सर्वशब्दात्मिके सर्वविश्वात्मिके सर्वदेशात्मिके सर्वसर्वात्मिके सर्वगे हे जगन्मातृके पाकि मां पाकि मां पाकि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः